पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणम् तमालम् अङ्गीकृदाखिल विभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवताया मुहुर्विदति वदने मुरारे प्रेमत्र वा प्रणिहितानि गतागतानि मालादृशोर्मधुकरीव महोत्पलेय सामे श्रियं दिशतु सागरसम्भवाय आनादमनिवेशमनङ्गतन्त्रम् आर्गेकरस्थितकनिकपक्ष्मनेत्रम् भूत्यै भवेर्मम भुजङ्गशयाङ्गनाय वा विभाति कामप्रदा भगवतो विकटाक्षमाला कटाक्षमाला कल्याणमावहतु कमलालया कण्टभारे धाराधरे स्फुरति या तडिदङ्गनेव मातु समस्त जगदा महनीय मूर्ति भद्राणि मे दिशतु भार्गवनन्दनाय खलु यत् प्रभावा माङ्गल्यभाजि मधुमाधिनि मन्मथेन मय्यापदेतदिह मन्थरमीक्षणार्थम् मन्दालसं च मकरालय कलयका पदविभ्रमदानदक्षम् आनन्दहेतुरधिकम् मुरविद्वेषोऽपि एषन्निषीदधु मयि क्षणभीक्षणार्धम् इन्दीवरोदर सहोदरमिन्दिराय इष्टा <laughs> योऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदम् सुलभम् लभन्ते दृष्टिप्रकृष्ट कमलोदर दिप्तिरिष्ट पुष्टिम् कृषिष्ट मम पुष्कर विष्टरा धयानुपवनो द्रविणाम्बुधारा अस्मिन् किञ्चन विहङ्गशिशौ विषण् दुष्कर्मदं मम पनीय चिराय दूरम् नारायणप्रणयिनी ना नयनाम्बुव कम्भरीति शशिशेखर वल्लभेति सृष्टिस्थिति प्रलय केलिषु संस्थिताया तस्यै नमस्त्रिभुवनेक गुरो कर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीय गुणार्नवायै नमोस्तु नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोस्तु े माम्बुजपीठिकायै नमोस्तु भूमण्डलनायिकाय नमोऽस्तु देवादिदयापराय नमोस्तु, देवा नमोस्तु शार्दायुधवल्लभाय नमो नमोऽस्तु काङ्क्ये कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै नमोस्तु देवादि विरचितायै नमोस्तु नन्दात्मज वल्लभायै सम्पर्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदान विभवानि सरोरुवाक्षी त्वद्वन्दनानि दुरिता मामेव मादरनिशम् कलयन्तु मान्ये यत्कटाक्षसमुपासनाविधि सेवकस्य सकलार्थसम्पद न्तनोति वचनाङ्गमानसै त्वा मुरारि हृदयेश्वरीं भजे सरसि जनिलये सरोज हस्ते दवनतमा शुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमह्यम् सृष्ट स्वर्वाकि विमल चारु जलाप्लुताङ्गी प्रात नमामि जगता जननी मशेषाधिनाथ गृहिणी अमृताब्धिपुत्री कमलाक्षवल्लभे त्व करुणा पूरतरङ्गितैरपाङ्गै अवलोगय प्रथमम् स्तुतिभिरमीभिरन्वणं त्रयी मयि त्रिभुवनमातरं रमा गुणाधिका गुरुतरभाग्यभागिन भवन्ति ते भुवि बुधभाविताशया भवन्ति ते भुवि बुधभाविताशया <Gülüyor> <Gülüyor>